महावाक्यरत्नावले द्वितीयम् प्रकरणम् अथ सार्धान्तिकबन्धमोक्षवाक्यानि एकत्रिंशत् देहादेनात्मत्वेन अभिमन्यते सोऽभिमान आत्मनो बन्धः तन्निवृत्तिर्मोक्षः देवमनुष्यादि उपासनाकामसङ्कल्पो बन्धः कर्तृत्वादि अहङ्कारसङ्कल्पो बन्धः अणिमादि अष्टैश्वर्याशासिद्धसङ्कल्पो बन्धः यमादि अष्टाङ्गयोगसङ्कल्पो बन्धः केवलं मोक्षापेक्षासङ्कल्पो बन्धः त्रसम्भवो बन्धः नित्यानित्यवस्तुविचाराद् अनित्यसंसारसुखदुःखविषयसमस्तक्षेत्रममता बन्धक्षयो मोक्षः मन एव मनुष्याणाम् कारणम् बन्धमोक्षयोः बन्धनम् विषयासक्तम् क्त्यै निर्विषयम् स्मृतम् ममेति बध्यते जन्तुर्न मम इति विमुच्यते ममत्वेन भवेज्जीवो निर्ममत्वेन केवलः स्वसङ्कल्पवशाद्बद्धो निःसङ्कल्पाद्विमुच्यते द्रष्टादृश्यवशाद्बद्धो दृश्याभावे विमुच्यते इच्छामात्रम् अविद्येयम् तन्नाशो मोक्ष उच्यते भोगेच्छामात्रकम् बन्धस्तत्त्यागो मोक्ष उच्यते चिच्चैत्यकदनाबन्धस्तन्मुक्तिर्मुक्तिरुच्यते नास्थैव हि निर्वाणम् दुःखमास्था परिग्रहः कर्मणा पद्यते जन्तुर्विद्यया च विमुच्यते स्वरूपावस्थितिर्मुक्तिस्तद्भ्रंशो हन्त्ववेदनम् चित्ते चलति संसारो निश्चले मोक्ष उच्यते बन्धो हि वासनाबद्धो मोक्षः स्याद् वासनाक्षयः पदार्थभावनाद् आर्ढ्यम् बन्ध वासना वासनातानभम् ब्रह्मन् मोक्ष इत्यभिधीयते न मोक्षो नभसः पृष्ठे न पाताले न भूतले सर्वाशा संक्ष मोक्ष इतेश्यते मोक्षो मे स्व चिंता चेदुत्थम मन मननोत्थे मन बंध संसारिको मत तत्माजनमि महा संसार तत्प्रमार्जनमात्रम् तु मोक्ष इत्यभिधीयते इति सार्धान्तिकबन्धमोक्षवाक्यन्येकत्रिंशत् द्वितीयम् प्रकरणम् समाप्तम्